श्रीमद्भागवत महापुराणम ओं नमो भगवते वासुदेवाय श्रीमदवत महापुराण दशम स्कंध परस प्रथमोध्याय भगवान के द्वारा पृथ्वी को आश्वासन वसुदेव देवकी का विवाह और कंस के द्वारा देवकी के छह पुत्रों की हत्या राज कथितो वंशविस्तारो भवता सोमसूर्ययोः राज्ञां चोभयवंस्यानां चरितं परमाद्भुतम् यतोऽश्च धर्मशीलस्य नितरां निसत्तमं तत्रां सेनावतीर्णस्य विष्णुर्वीर्याणिशंसनः अवतीर्य यदुर्वंशे भगवान् भूतभावनः कृतवान् यानि विश्वात्मा तानि नो वदविस्तरात् निवित्तर्षैरुपगीयमानान् भवौषधाथ्रोत्र मनोभिरामात् क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् पितामहामे समरे मरञ्जयैर्देवव्रताद्यातीर्थेस्तिमिङ्गलये दुरद्ययं कौरवसैन्यसागरं कृत्वा तरन्वस्यपदं स्मरत्प्लवाः द्रौण्यस्य विप्लोष्टमिदं मदङ्गं सन्तानबीजं कुरु पाण्डवानां जुगोपकुच्छिं गत आद्यचक्रो मातुश्च मेयशरणं गतायां वीर्याणि प्रयच्छतो मृत्युमुतामृतं च मायामनुष्यश्च वदस्य विद्वन् रोहिण्यास्तनय प्रोक्तो रामशङ्करणस्त्वया देवक्त्या गर्भसम्बन्ध कुतो देहान्तरं विना कस्मान्मुकुन्दो भगवान् पितुर्गेहाद्व्रजं गतः क्व हा। वासं यातभिः सार्धं कृतवान् सात्वतां पतिः प्रजेवसन् किं करोन्मधुपुर्यां च केशवः भ्रातरं चावधित् कंसं मातुरद्धातु दर्हणम् देहं मानसुमाश्रित्य कति वर्षाणि विष्णुभिः जदूर्पुर्यां सहा वासीन् पत्न्या कर्त्यभवन्प्रभो एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम् भक्तुर्मर्हसि सर्वज्ञ श्रद्धानाय विस्तृतं नैषा दिदुस्सहासुक्ष्मां तक्तोदं अपि बाधते पिबं तं तन्मुखां भोज च्युतं हरिकथामृतं सूतवाच एवं निशम्य भृगुनन्दनसाधुवादं वैयाशकी स भगवान् विष्णुनातम् प्रद्यर्चकृष्णचरितं कलिकल्मषघ्नं व्याहर्तुमारभत भागवतप्रधानः श्रीशोकुवाच सम्यग्व्यवसिता बुद्धे तव राजर्षि सत्तमं वासुदेवकथायां ते यज्जाता नैषकीरतिः वासुदेवकथाप्रश्नपुरुंसान् स्त्रीन्पुनातिः वक्तारं पृच्छुकं श्रोत्रे तत्पादसलिनं यथा भूमिर्दीप्तलपव्याज दैत्यादिकशताजितैः आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ गोर्भुत्वा श्रुमुखे खिन्ना क्रन्दति करुणं विभोह। उपस्थितान्तिके तस्मै व्यसनं शैवं स्वममोचत ब्रह्मा तद्बुधार्याथं सह देवैस्तया सह जगां सत्रीन स्थिरं क्षीरपयोनिधेः तत्र गत्वा जगन्नाथं देवदेवं मृषाकपिं पुरुषं पुरुषशुक्तेन उपस्तस्थे समाहितः गिरं समाधौ गगने समीरितां निशम्य वेधासि सानुवाचः गां पौरुषिं मे शुणुतामरासु पुनर् विधयतामासु तथैव मातिरं पुरैव पुंसावधृतोधराञ्ज्वरो भवद्भिरंसै यदं सूर्यन्यतां स यावदुर्व्यां परमेश्वरेश्वर स्वकालशक्त्याश्चरेद्भुवि गृहे वसुदेवगृहे साक्षाद्भगवान् पुरुषपर जनिष्यते तत्प्रियार्थं शम्भवन्तु सुरस्त्रियः वासुदेवकलानन्तः सहस्रवदनस्वरान् अग्रतो भविता देवो हरे प्रियचिकीर्षयां विष्णोर्मायां भगवती ययाम सम्मोहितं जगत् आजिष्टा आदिष्टा प्रभुणांसेन कार्यार्थे सम्भविष्यति शेषुकुवाच इत्यादिशामर्गणान् प्रजापतिपतिर्विभूम् आश्वास्य च महिं गिर्भिः स्वधाम परमं ययौ सूरसेनो यदुत्पतिर्मथुरामा वसन् पुरीं माथुराच्छूरसेनाश्च विषयान् राजधानी तत सा भू सर्वजादवभूभुजां मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः तस्यां तु करिः त्यक्षौरिर्वसुदेवकृतोद्वह देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत उग्रसेन सुतकंस स्वप्रियचिकीर्षयाम् जग्राह जग्राहरोक्मै रथसुतैर्वितः चतुश्शतं पारिबरुहं जङ्गतानां धेममालिनाम् अश्वानामयुतं सार्धं रथानां च त्रिषट्शतं दासीनां सुकुमारीणां द्वेषते समलङ्कृते धुहित्रे देवकप्रादाद्याने धुहितृवत्सलः शङ्खतुर्यमृदङ्गास्य ने दुर्दिन्दुभय समम् प्रयाणप्रक्रमे तावदं वरद्वध्वो सुमङ्गलम् पथिं प्रग्रहिणं कलसम मा भास्याहारशरीरवाक् अस्यास्त्वामष्टमो गर्भो हन्तायां वह सेभुत इत्युक्त सकलपापो भोजानां कुल्पांसलः भगुनीं हन्तुमारब्ध खड्गपाळी कचे ग्रयीन्